श्रीमन्महाभारतम् आदिपर्वणि आस्तिकपर्वणि सौपर्णे अष्टाविंशो अध्यायः सौ तिरुवाच इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुं विनतोवाच समुद्रकुक्षा वेकान्ते निषादानां सहस्राणि भुक्त्वा मृतमानय न हन्तुं कार्या कथञ्चन अवध्यः सर्वभूतानां अग्नको विशंशस्त्र विप्रो भव पि गुरुर्ि सर्वूता परकर्तिमास्वूपस्त सतां वै ब्राह्मणो मत सतेता हृद्धेना ब्राह्मणानामभिद्रोहो न कर्तव्यः कथञ्चन न ह्येवमग्निर्नादित्यो भस्मकुर्यात्तथा नघ यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः तदेतैर्विविधैर्लिङ्गैस्त्वम् विद्यास्तम् द्विजोतमम् भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः गरुड उवाच किं रूपो ब्राह्मणो मातः किं शीलः किम् पराक्रमः किं स्विदग्निभोभाति किंस्वित् सौम्यप्रदर्शनः यथाहमभिजानीयाम् ब्राह्मणम् लक्षणैः शुभैः तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि विनतो वाच यस्ते कण्ठमनुप्राप्तो निगीर्णम् बडिशम् यथा दहेदङ्गारवत्पुत्र तम् विद्या ब्राह्मणर्षभम् विप्रस्त्वया न हन्तव्यः सङ्क्रुद्धेनापि सर्वदा प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः जठरेन च जीर्येऽद्यस्तं जानीहि द्विजोत्तमं पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा प्रीता परमदुःखार्ता नागैर्विप्रकृता सती विनतोवाच पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम् अहं च सदा पुत्रशान्तिः इहासीना भविष्यामि स्वस्तिकारे रता सदा अरिष्टं व्रज पुत्रकार्यार्थसिद्धये सौतिरुवाच ततः निशम्य वितत्यपक्षौ नभुत्पत उत्पपात ततो निषादान् बलवानुपागतो बुभुक्षितः काल सतान तान्निषादानुपसंहरन् सदा रजः समुद्धयनभः स्पृशम् महत् समुद्रकुक्षौ च विशोषयन् पयः समीपजान् भूधरजान् विचालयन् ततश्च चक्रे महदाननम् तदा निषादमार्गम् प्रतिरुध्य पक्षिराट् ततो निषादास्त्वरितः प्रव्रजुः यतो मुखम् भुजङ्गभोजिनः तदाननम् विवृत मतिप्रमाणवत् सम, समभ्ययुर्गगन गगनमिवादिताः खगाः सहस्रशः पवन रजो विमोहिता यथानिलप्रचलितपादपेवने ततः समाहरत्परिचपलो महाबलः निषूदयन् बहुविधमत्स्यजीविनो बुभुक्षितो इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे अष्टाविंशोऽध्यायः